नारदपुराणम् पूर्वार्धम् अध्यायम् हण्ड्रेड् अण्ड् सिक्स् ब्रह्मोवाच शृणुवत्समरी चेत्त्वम् पुराणम् कूर्म सञ्ज्ञकम् लक्ष्मीकल्पानुचरितम् यत्र कूर्म वपुर्हरिः धर्मार्थकाममोक्षाणाम् महात्म्यम् च पृथक् पृथग इन्द्रद्युम्नप्रसङ्गेन स तत्सप्तदशसाहस्रं सुच दुःसंखितं शुभं यत्र ब्राह्मा पुरा प्रोक्ता धर्म नानाविधा मुनि नाननाकथाप्रसङ्गेन ना नृणां सद्गतिदायकाफ तत्र पूर्वविभागे तु पुराणोपक्रम लक्ष्मीन्द्रद्युम्न संवादको मर्षिगणसङ्कथा वर्णाश्रमाचारकथा जगदुत्पत्तिकीर्तनम् कालसङ्ख्यासमासेन लयान्देस्तवनम् विभोः ततः सङ्क्षेपदसर्गशाङ्करम् चरितम् तथा सहस्रनाम पार्वत्या योगस्य च निरूपणम् भृगुवंशसमाख्यानम् तथा च देवादीनां समुत्पत्तिर्दक्षयज्ञाहदिस्ततः दक्षसृष्टिकथापश्चात् कश्यपान्वयकीर्तनम् आत्रेयवंशकथनं कृष्णस्यं चरितं शुभं मातण्ड कृष्णसंवादो व्यासपाण्डवसं कथा युगधर्मानुकथनं व्यासजैमिनिकीर्तनं वाराणस्याश्च माहात्म्यं प्रयाकस्य ततः परं त्रैलोक्यवर्णनं चैव वेदशाखानिरूपणम् उत्तरे स्याविभागेदु पुरा तदः व्यास गीता तद प्रोक्ता नानाधर्मप्रबोधिनी नानाविधानम् तीर्थानामाहात्म्यम् च पृथत्ततः प्रतिसर्ग प्रकथनम् भ्रात्मीयं संहिता स्मृता अधपरम् भागवती संहितार्थनिरूपणम् कथित यत्र वर्णानां पृथ वृत्तिरुदाकृ हृदा पाद प्रथमें प्रोक्ता ब्राह्मण व्यवस्थित सदाचा वत्स भोगसौ्य विवर्धिनी विवर्धनी दिवत्रि वृत्ति सम्य प्रकर्ति युतया पाप विधूय स व्रजे तृतीये वैशिरादीनां वृत्तिरुक्ता चतुर्विधा यया चरितया सम्यग्लभेगतिमुत्तमा च दुर्धे स्यास्तदा पादे शोद्र वृत्तिरुदाकृदा यया संतुष्यति श्रीस्यो नृणां श्रेयो विवर्धनः पञ्चमे स्यास्तदपादे वृत्तिसङ्करज्योतिता यया चरितयाप्नोति भाविनीं गतिमुत्तमाम् इत्येषा पञ्चपद्युक्ता द्वितीया संहिता मुने तृतीया त्रोदिता सौरी नृणां कार्यविधायिनी सोढा षट्कर्मसिद्धि बोधयन्ती च कामिनां वैष्णवो नाम मोक्षता परिकीर्तिता चतुष्पदीद्विजातीनां साक्षात् ब्रह्मस्वरूपिणी ताक्रमातुर्द्विषु सहस्राः परिकीर्तिताः ये दत् कूर्मपुराणं तु चतुर्वर्गफलप्रदम् पठदां शृण्वदां नृणां सर्वोत्कृष्टगदिप्रदाम् लिखित्वैतत्तु यो भक्त्या हेम कूर्मसमन्वितं ब्राह्मणाय यने दध्यात्सयादिपरमां गतिं यदि श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे कूर्मपुराणानुक्रमणि कथनं नाम षडुत्तरशततमोऽध्यायः ओम्